अथ सप्तचत्वारिंशः सर्गः सप्तधातुकृते गर्भे दितिः परमदुःखिता सहस्राक्षम् दुराधर्शम् वाक्यम् सानुनयाब्रवीत् ममापराधाद्गर्भोऽयम् सप्तधा शकलीकृतः नापराधो हि देवेश तवा प्रबलसूदना प्रियम् त्वत्कृतमिच्छामि मम गर्भविपर्यये मरुताम् सप्त सप्तानाम् स्थानपाला भवन्तु ते वातस्कन्धा इमे सप्त चरन्तु दिवि मारुता इति विख्याता दिव्यरूपा ममात्मजाः ब्रह्मलोकम् च रत्वेक इन्द्रलोकम् तथा परः दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः चत्वारस्तु सुरश्रेष्ठदिशो वैतवशासनात् सञ्चरिष्यन्ति भद्रन्ते काले हि त्वत्कृते त्वत्कृतेनैव नाम्ना वै इति विश्रुताः तस्यास्तद्वचनम् श्रुत्वा सहस्राक्षः उवाच प्राञ्जलनिर्वाक्यमितीदम्बलसूदनः सर्वमेतद्यथोक्तन्ते भविष्यति न संशयः विचरिष्यन्ति भद्रन्ते देवरूपास्तवात्मजाः एवम् तौ निश्चयम् कृत्वा माता पुत्रौ तपो वने जग्मतुस्त्रिदिबम् रामकृतार्थाविति नः श्रुतम् एष देशः स पुरा दितिम् यत्र तपःसिद्धामेवम् परिचचारसः इक्ष्वाकोऽस्तु न रव्याघ्रपुत्रः विशाल इति विश्रुतः तेन चासीदिहस्थाने विशालेति पुरीकृता विशालस्य सुतो राम हेमचन्द्रो महाबलः सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत सृञ्जयस्य सुतः श्रीमान् सः देवः प्रतापवान् कुशाश्वः सः देवस्य पुत्रः परमधार्मिकः कुशाश्वस्य महातेजाः सोमदत्तः सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम् आवसत्परमप्रख्यः सर्वे वैशालिका नृपाः दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः इहाद्यरजनीमेकाम् सुखं स्वप्स्यामहे वयम् श्वः प्रभाते नरश्रेष्ठजनकम् द्रष्टुमर्हसि सुमतिस्तु महातेजा विश्वामित्रमुपागतम् श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन् महायशाः पूजाम् च परमाम् कृत्वा सोपाध्यायः स पृष्ट्वा विश्वामित्रमथाब्रवीत् धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयम् मुने सम्प्राप्तो दर्शनम् चैव नास्ति धन्यतरो मम इत्याशे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः